श्रीहरये नमः अथ चतुर्थोऽध्यायः राजोवाच यानि यानिह कर्माणि यै यैस्वच्छन्दजन्मभिः चक्रे करोति कर्ता वा हरिस्तानि ब्रुवन्तु नः द्रुमिल उवाच यो वा अनन्तस्य गुणानन्तान् अनुक्रमिष्यन् सदु बालबुद्धिः राजांसि भूमेर्गणयेत् कथञ्चित् कालेन नैवा किल शक्तिधाम्नः भूतैर्यधा पञ्चपि आत्मसृष्टेः पुरं विराजं विरचय्य तस्मिन् स्वांसेन विष्टः पुरुषाभि दानम् अवापनारायण आदिदेवः यत्काय एष भुवनत्रयसन्निवेशो यस् एन्द्रियैस्तनुभृताम् उभयेन्द्रियाणि ज्ञानं स्वतः स्वसनथो भलद् मोज इह सत्त्वादिभिस्थितिलयोद्भव आदिकर्ता आधावभुच्छतद्धृतिरजसास्य सर्गे विष्णुस्थितौ क्रतुपधिर्द्विजधर्मसेतुः रुद्रोऽप्ययाय तमसा पुरुषः स आद्य इत्युद्भवस्थितिलयास्तततं प्रजासो धर्मस्य दक्षदुहितरि अजनिष्टमूर्त्या नारायणो नरऋषिप्रवर नैष्कम्यलक्षणमुवाच चचारकर्म योध्यापि शास्तरुषिवर्यनिषेविधाृहे इन्द्रो विसङ्ख्य मम धाम जिगृक्षतीति कामं ययुङ्क्त सगणम् स भधर्युभाक्यम् गत्वाप्सरोगणवसन्त सुमन्धवा तैः स्त्रीप्रेक्षणेषु भि अविद्यधन्महिज्ञः विज्ञायश्चक्रकृतमक्रममाधिदेवः प्राहप्रहस्य गतविस्मय एजमानान् मा भैष्टभोमदनमारुततेव मा वद्वो गृह्णीतनो बलिमशून्यमिमं कुरुध्वम् इत्थं ब्रुवत्यभयते न रदेवदेवाः सौव्रीडनं रसिरसगृणं तमूचुः नैधत् विभो त्वयि परे विकृते विचित्रं स्वारामधीरनिकरान् अथ पादपद्मे त्वां सेवतां सुरकृता भगवोन्तरायाः स्वौ को विलघ्य परमं व्रजतां पदं ते नान्यस्य बर्हिषि बलिं दततस्वभागान् दद्दे पदं त्वमभिता यदि विघ्नमूर्घ्नीं शुत्रुत्रिकालगुणमारुत जैह्व्यसैन्यान् अस्मान् अपार जलतीन् अतितीर्यके चेत् क्रोधस्य यानि विफलस्य वसम्पे मज्जन्ति दुश्चरतपश्च वृतोत्सृजन्ति इति प्रग्रणातां तेषां स्त्रियोऽद्यद्भुतदर्शनाः दर्शयामास शुश्रूषां स्वर्चिताः कुर्वतीर्विभुः ते देवानुचरा दृष्ट्वा स्त्रियश्रीरिव गन्धेन मुमुहुस्तासां रूपौ तानाक देवदेवे सः प्रणतान् प्रगसन्निव आसामेकतमां वृन्ध्वं सवर्णां स्वर्गभूषणाम् ओमित्यादेशमाधाय न त्वा तं शुरवन्दिनः उर्वशीमप्सरः श्रेष्ठां पुरस्कृत्य दिवं ययुः इन्द्रायणं यशतसि शुण्वतां त्रिदिवौकशान् ऊचुर्नारायणभलं शक्रस्तत्रा सविस्मितः हंसस्वरूपी आत्मयोगं दत्तकुमारऋषभो भगवान् विष्णुः जगतां कलयावतीर्णः तेनाहृता गुप्तोप्यये श्रुतयो हास्ये गुप्तोऽप्यये मनुरिलौक्षदयस्य मात्स्ये उतरां भसक्ष्मां कौर्मे अमृतोन्मतने स्वपृष्ठे ग्राहात् प्रपन्नम् इभराजममुञ्चदार्थम् संस्तुन् वधोब्धिपतितान् श्रमणान् ऋषींश्च चक्रं च वृत्रवदतस्तमसि प्रविष्टम् देवस्त्रियोऽसुरगृहे पिहिता अनाथ जज्ञे सुरेन्द्रम् अभयाय सतां नृसिंहे देवासुरे युधि च दैत्यपतीं शुरार्ते हत्वान्तरेषो भुवनान्य धतात्कलाभिः भूत्वा तवामन इमाम् अहरत् बलेक्ष्मां याच्ञाच्छलेन समदाद् अधिते सुधेभ्यः निक्षत्रियामकृतकां च त्रिसप्त कृत्वा रामस्तु हैहयकुलाप्यय भार्गवाग्निः सोऽधिम्बभन्त दशभक्त्रमहन्सलङ्कं सीतापतिर्जयतिलोकमलग्नकीर्तिः भूमेर्भरावतरणाय जातः करिष्यति सुरैरपि दुष्कराणि हें वादैर्विमोचयति यज्ञकृतोतदर्हान् शूद्रान् कलौषिति भुजो न्यकनिष्यदन्ते एवंविधानि कर्माणि जन्मानि च जगत्पतेः भूरिणि भूरि यशशो वर्णितानि इति श्रीमद्भागवते महापुराणे एकादशस्कन्ते चतुर्दोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनादमहराज के जय